गरुडपुराणम् आचारकाण्डम् अध्यायम् 35 फैव् हरिरुवाच न्यासादिकम् प्रवक्ष्यामि गायत्र्या शृणुशङ्कर विश्वामित्रऋषिश्चैव सविता चाधदेवता ब्रह्मशीर्षारुद्रशिखाविष्णोर्हृदयसंश्रिता विनयोगैकनयना कात्यायनसगोत्रजा त्रैलोक्यचरणाज्ञेया पृथिवी कुक्षिसंस्थिता एवम् ज्ञात्वा दु गायत्रीम् जपे द्वादशलक्षकम् त्रिपदाष्ठाक्षराज्ञेया च दुष्पादा षडक्षरा जेप च त्रिपदा प्रोक्ता अर्चने च चतुष्पदा न्यासे जपे तथा ध्याने अग्निकार्ये तथा गायत्रीं विन्यस्य नित्यं सर्वपापप्रणाशिनीं पादाङ्गुष्टे गुल्फमध्ये जङ्घयोर्विद्धिजानुनोः ऊर्वोर्गुह्ये च वृषणेनाढ्याम्नाभौ तनूदरे स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः नेत्रे भुवार्ललाडे च पूर्वस्यां दक्षिणोत्तरे पश्चिमे मूर्ध्नि चाकारं न्यस्य द्वर्णान् वदाम्यहम् इन्द्रनीलं च वह्निं च पीदं श्यामं च पापिलं श्वेदं विद्युत्प्रभं तारं कृष्णं रक्पदं क्रमेण तद श्यामं शुक्लं तथापीदं श्वेदं वै पद्मराघवद शङ्खवर्णं पाण्डुरं च रक्तं अर्कवर्णसमं सौम्यं शङ्खाभं श्वेदमेव च यद्यस्पृश्यति हस्तेन यच्च चक्षुषा पूतं भवति तत्सर्वं गायत्र्या न परं विदुः इति श्रीगारुडे महापुराणे आचारकाण्डे यत्रीन्यासनिरूपणम् नाम पञ्चत्रिंशोऽध्यायः ओम्